त्र्यम्ब गम्य चामे सुगन्धिं पुष्टिवर्दनम् उर्वारुग्रमेव वन्दनं प्रेचोर्मुक्षीयमा ॐ त्र्यम्बगम्य चा मह सुगन्धिं पुष्टिवर्णनं उर्वारुग्रमेव वन्दनाम् प्रेजोर्मुक्षीय मामृता ॐ त्रयं गम्य जामहे सुगन्धीन्दुष्टिवर्धनं उर्वारुक्मिवनं प्रेज्योर्मुक्षीयमामृता ॐ त्रयं गम्य जामहे सुगन्धीं पुष्टिवर्धनम् ेव वन्दनं ऋजोर्मुक्षीर्वामृत ॐ त्रयम्बगम्यजामहे वन्देभुष्टिवर्णनम् उर्वारुग्मेव वन्दनं ऋज्यो रुग्यमेव वन्दनं ऋत्योर्मुक्षीय मामृतात् ॐ त्र्यम्बगम्यजामे वन्दे पुष्टिवार्नं उर्वारुगमेव वन्दनं नित्योर्मुक्षीय मामृत ॐ त्र्यम्बगम्यजामहे दुग्गन्धिं पुष्टिवार्णम् उर्वारुक्मिवनं प्रिजयोमुख्य मामृतात् ॐ त्र्यं गम्यचा मे दुग्गन्धिं पुष्टिवार्णम् उर्वारुक्मिव यं गम्यजामेहे वन्दे पुष्टिवार्णम् उर्वारुपमेवा वन्दनं ऋद्योर्मुखीय मामृता ॐ त्रयम्ब गम्यजामेहे वन्दे सुगन्धिं पुष्टिवार्णम् उर्वारुकमेव वन्दनान् ऋजोर्मुक्षियवामृता ॐ त्रयं भगम्यचा महे सुगन्धिं पुष्टिवार्णम् वारुखमिव वन्दनान् च मे गन्धीं पुष्टिवर्णम् उर्वारुकमे वा वन्दनं विद्योमुचियवामृता ॐ त्रयं भगम्य च महे गन्धिं पुष्टिवर्णनम् उर्वारुकमेवा वन्दनं पुष्टिवर्णम् उर्वारुक्मिवन्दनं नित्योनुक्षीयवामृता ॐ त्र्यम्बगम्यज महे स्बन्दिं पुष्टिवार्णम् उर्वारुग्मिवनं नित्योनुक्षिय मामृता ॐ त्र्यम्बगम्यज महे ष्टिवार्दनम् उर्वारुकमेवा वन्दनां नृत्यो मोक्षीय मामृता ॐ द्र्यम्बगं यजामहे सुगन्धिं पुष्टिवार्दनम् उर्वारुकमेवा वन्दनां नृत्यो मोक्षीय यजामहे द्वन्द्वं पुष्टिवर्णम् उर्वारुक्मिवा वन्दनं मृत्यो रुक्षीय मामृता ॐ त्र्यम्बगं यजमेह द्वन्द्ं पुष्टिवर्णम् उर्वारुगमिव वन्दनं नृत्यो रुक्षीय मामृता ॐ त्र्यम्बं यजमेहे द्वन्द्ं पुष्टिवार्णम् उर्वारुकमिवा वन्दनं नित्योक्षीयवामृता ॐ त्रयं भगां यचामहे सुगन्धिं पुष्टिवर्धनं उर्वारुकमिव वन्दनं नित्योर्मोक्षीयवामृता ॐ शान्ति शान्ति सा